छान्दोग्योपनिषत् अधद्वितीयोऽध्यायः प्रथमः खण्डः अध्यायं टु खण्डं वन् ओ समस्तस्य खलु साम्न उपासनगुं साधु यत्खलु साधु तत् सा मे तदुदाप्याहुस् सां नै नमुपा गादिति साधुनै ननुपा गादित्येव तदाखुरसां नयि नमुपा गादित्यसाधुनै नमुपा ददेत्येव तदाहुरसा मनो साधु भवत्यसाधु ददेत्येव तदाहुः स ययेददेवं विद्वान् साधु सा विद्वान मेत्युपास्तेभ्याशोह यदे नगम साधवो धर्मा आ च गच्छेयुरुप च अध्यायं तु खण्डं तु लोकेषु पञ्चविधुंसामोपासीतपृथिवी हिङ्गारोऽग्निप्रस्तावोऽन्तरिक्षमुद्गीध आदित्यप्रदिहारोद्यौर्निधनमित्युर्ध्वेषु अधा वृक्ते वृत्तेषु द्यौहिङ्कार आदित्यः प्रस्तावोऽन्तरिक्षमुद्गीधोऽग्निः प्रतिहारः पृथिवीनिधनं कल्पान्दे हास्मै लोका ऊर्ध्वाश्च वृत्ताश्च येददेवं देवं विद्वाल्लोकेषु पञ्चविधं सामोपास्थे अध्यायं टु घण्टं त्रि वृष्टौ पञ्चविधगुं सामोपासीद पुरोवादोऽहिकारो मेघो उद्गेदो वर्षदिश उद्गेधो विद्योतदेस्ननयदिशप्रतिहारः उद्गृह्णादितन्निधनं वर्षदिहास्मै वर्ष यदिह येदेवं विद्वान् वृष्टौ पञ्चविधगुं सामोपाष्ठे अध्यायं टु खण्डं फोर् सर्वा स्वप्सु पञ्चविधगुं यत् सम्प्लवते सहिंकारो यद्वर्षदिशप्रस्तावो या यास्प्राच्यस्य तन्ते स उद्गीतो यास्प्रतीच्य सप्रदिहारः समुद्रो निधनं नखाप्सु प्रैत्यप्सुमान् भवति यदेवं विद्वान् सर्वा स्वप्सु पञ्चविधुं सामोपास्ते अध्यायं टु खण्डं फैव् ऋतुषु पञ्चविधगुं सामोपासीदवसन्तो हिङ्गारो ग्रीष्मः प्रस्तावो वर्षा उद्गीधशरत्प्रतिहारो हे मन्दो निधनम् कल्पन्ते हास्मा ऋतवर्धुमान् येददेवं ये ददेवं वेद्वा नृदुषु पञ्चविधगुं सामोपास्ते अध्यायं टु खण्डं सिक्स् पशुषु पञ्चविधुं सामोपासीताजाहिंकारो वयः प्रस्तावो गाव उद्गीधोष्वाः प्रतिहार पुरुषो निधनम् भवन्ति हस्य पशवः पशुमान् भवति यज ददेवं विद्वान् पशुषु पञ्चविधं सामोपास्थे अध्यायं टु खण्डं सेवेन् प्राणेषु पञ्चविधम् परो वरीयसामोपासेदप्राणो हिङ्गारो वाक्प्रस्तावश्चक्षुरुद्गीदश्रोत्रं प्रतिहारो मनोनिधनं परो वरीयागुं शिवा एदानी परो वरीयो हास्य भवति परो वरीयशोः लोकान् जयति ययेदेवं विद्वान् प्राणेषु पञ्चविधुं परो वरीयसामोपास्त इति तु पञ्चविधस्य अध्यायं टु खण्डम् एय्ट् अध सप्तविधस्य वाचि सप्तविधुं सामोपासीद यत्किञ्च वाच्यो हुम् इति स यत् प्रेदिसप्रस्तावो यदेदि स आदिः यदुदिदि स उद्गेधो यत्प्रदि प्रदिहारो यदुपेदिस उपद्रवो यन्निदि तन्निधनं दुग्धेस्मै वाग्दोहयो वाचो दोहो वनन्नादो भवति ददेवं विद्वान्वाचि सप्तविधगुं सामोपास्थे अध्यायं टु खण्डं नयन् अथ खल्वमुमादित्यगुं सप्तविधगुं सामोपासीद सर्वदा समस्तेन सा म मां प्रदिमां प्रदीदि सर्वेण समस्तेन साम तस्मिन्निमानि सर्वाणि भूतान्यन्वा यत्तानि दिविद्या यत्पुरोदयात् हिङ्गकारस्तदस्य पशवोऽन्वा यत्तास्तस्मात्तेऽहिकुर्वन्ति हिङ्गकारभाजिनो ह्येदस्य साम्नः अध यत्प्रथमोधिदेशप्रस्तावस्तदस्य मनुष्या अन्वा यत्तास्तस्मात्ते प्रस्तुति कामाः प्रसगुं स कामाः प्रस्तावभाजिनोख्येदस्य साम्नः अध भाजीनिह्येतस्य साम्नः अध यत्सम्प्रति मध्यं दिने स उद्गीधस्तदस्य देवा अन्वायत्तास्तस्मात्ते सप्तमाः प्राजापत्यानमुद्गीधभाजिनोक्ष्येतस्य साम्नः अध यदूर्ध्वं मध्यं दिनात् प्राग् पराह्णात्स प्रदिहारस्तदस्य गर्भा अन्वायतस्तस्मात् ते प्रतिहृदा नवपद्यन्ते प्रदिहार भाजिनोख्येतस्य साम्नः अध स्यारण्या अन्वायत्तास्तस्मात् ते पुरुषन् दृष्ट्वा कक्षगुं शुभ्रमित्युपद्रवन्त्युपद्रवभाजिनोख्येतस्य साम्नः अध यत्प्रथमास्तमिदे तन्निधनन्तदस्य पितरोऽन्वायत्तास्तस्मात्तान्नि दधति निधनभाजिनोक्ष्ये तस्य साम्ना येवं खल्वमुमादित्यगुं सप्तविधगुं सामोपास्ते अध्यायं टु खण्डं टेन् अध खल्वात्मसंमिदमधिमृत्युसप्तविधगुं सामोपासिदहि यदि त्र्यक्षरं प्रस्ताव इति त्र्यक्षरं तत्समम् आदिरिदि द्व्यक्षरं प्रदिहार इति चतुरक्षरन्तद इहैकं तत्समम् उद्गेध यदि त्र्यक्षरमुपद्रव इति चतुरक्षरन् भवत्यक्षरमधिशिष्यदे त्र्यक्षरं तत्समं निधनमिति त्र्यक्षरं तत्समेव भवदिदा निह वा ये दा इदो सा वादित्योद्वाविगुंसेन परमादित्या यदि तन्नागन्तद्विशोकम् आप्नो दिहादित्यस्य जयं परो हास्यादित्यजया जयो विद्वानात्मा संमिदमधिमृत्युसक्तविदगुं सामोपास्ते सामोपास्ते अध्यायं तु खण्डम् इलवन् मनोहिङ्गो वाक्प्रस्तावश्चक्षुरुद्गीध्रोत्रं प्रतिहारः प्राणो निधनमेदद्गायत्रं प्राणेषु प्रोदम् सय एवमे दद्गायत्रं प्राणेषु प्रोधं वेदप्राणिभवति सर्वमायुरेदिज्योग्जीवधि महान् प्रजया पशुभिर्भवति महान् कीर्त्या महामनास्या स्यात्तद्व्रतम् अध्यायं तु खण्डं ट्वेल्व् अभिमन्दति सखिंकारो धूमोजाय देशप्रस्थावोज्ज्वलदि स उद्गीधोङ्गारा भवन्ति सप्रदिहार उपशाम्यधि तन्निधनगुं स गुं गुम्सा शाम्यदि वेदब्रह्मवर्चस्यह्नादो भवति सर्वमायुरेदिद्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्याप्रत्यङ्गग्निमाजामेन्न निष्ठिवेत्तद्व्रतम् अध्ययं टु खण्डं तर्टीन् उपमन्त्रयदेश हिङ्गारो ज्ञपयदेशप्रस्तावस्त्रिया सहशेदेश उद्गीतः प्रदिस्त्रीं सहसेदेशप्रदिहारकालं गच्छति तन्निधनं पारं गच्छति तन्निधनमे दद्वामदेव्यं मिथुने प्रोदं स य एव मे दद्वामदेव्यं मिथुने प्रोदं वेदमिथुनी भवति प्रजायते सर्वमायुरे दिजोग्जीवदि महान् प्रजया पशुभेर्भवति महान् कीर्त्या न काञ्चन परिहरे तु खण्डं फोर्टीन् हुग्यन् हिङ्गार उदितः प्रस्तावो मध्यन्दिन उद्गीतोपराह्णप्रदिकारोऽस्तै यन्निधन मे दद्बृहदादित्ये प्रोदं सय एव मे दद्बृहदादित्ये प्रोदं वेद तेजस्व्यन्नादो भवति सर्वमायुरेदिज्यो जीवधि महान् प्रजया पश्युभिर्भवति महान् कीर्त्या तपन्तन्न निन्दे तद्व्रतम् अध्यायं तु खण्डं फिफ्टीन् अभ्राणि संप्लवन्ते स हृङ्गारो मेधो जायते सप्रस्तावो वर्षदिश उद्गेधो विद्योतदे स्तनयदि सप्रदिहार उद्गृह्णादितन्निधनमेदद्वैरूपं पर्जन्ये प्रोदं सय एव मे प्रोदं वेद विरूपागुंश्च सुरूपागुंश्च पशूनवरुन्धे सर्वमायुरे दिव्योग्जीवति महान प्रजया पशुभिर्भवति महान् कीर्त्या वर्षन्तन्न निन्दे तद्व्रतम् अध्यायम् टु खण्डं सिक्स्टीन् वसन्तोऽहि भ्रीष्मप्रस्तावो वर्षा उद्घेदशरत्प्रदिहारो े मन्दो निधनमे दद्वैराजमृदु सुप्रोदम् सय एव मे दद्वैराजमृदु सुप्रोदं वेदविराजधिप्रजया पशुभिर्ब्रह्मवर्चसेन सर्वमायुरेदिज्योग्ज्जीवदि महान् प्रजया पश्युभिर्भवति महान् कीर्त्यर्तून्न अध्यायं तु खण्डं सेवन्टीन् पृथिवी हिङ्कारोऽन्तरिक्षं प्रस्तावोद्यौ हृद्गीतो दिशप्रतिहारः समुद्रो निधनमे दाशक्वर्यो लोकेषु प्रोदाः सय एवमे दाशक्वर्यो दा लोकेषु प्रोदा वेदलोगी भवति जीवति महान प्रजया पशुभिर्भवति महान् कीर्त्या लोकान्न निन्देत्तद्व्रतम् अध्यायं तु खण्डम् एय्टीन् अजा हिङ्गारो वयः प्रस्तावो गाव उद्गीतोश्वाः प्रतिहारपुरुषो निधनमेदारेवत्यः पशुसुप्रोताः तय एवमेधा जेवत्य पशु सुप्रोदा वेदपशुमान् भवति सर्वमायुरेदिज्योग्ज्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या पशून्न निन्देत्तद्व्रतम् अध्यायं तु खण्डं नैन्टीन् लोमहिंकारस्त्वक्प्रस्थावो मा गं समुद्गीतोऽस्ति प्रदिहारो मज्जा निधनमे दध्यज्ञा यज्ञीय मङ्गे संवत्सरं मज्ञो नास्नीयात्तद्व्रतं मज्ञो नास्नीयादिति वा अध्यायं टु खण्डं ट्वी अग्निर्हिङ्गारो वायुः प्रस्ताव आदित्य उद्गीथो प्रतिहारश्चन्द्रमा निधनमेतद्राजनन् देवता सुप्रोदम् सय एवमे दद्राजनन् देवता सुप्रोदं वेदयिता समेव देवतानागं सलोकतागुं साष्टितागं सायुज्यं गच्छति सर्वमायुरेदिज्योग्जीवति महान प्रजया पशुभिर्भवति महान् कीर्त्या ब्राह्मणान्ननिन्दे तद्व्रतम् अध्यायं तु घण्टम् 21. वन् त्रयी विद्याहिस्त्रय इमे लोकास्सप्रस्तावोऽग्निर्वायुरादित्यः स उद्गेधो नक्षत्राणि वैयाघं सिमरी च यः सप्रदिहारसर्पा गन्धर्वापितरस्तन्निधनमेदच्छाम सर्वस्मिन्प्रोदम् तय एव मे दच्छाम सर्वस्मिन्प्रोदं वेद सर्वगुंह भवति तदेष श्लोकः यानि पञ्चधातृणि त्रीणि तेभ्यो न ज्ञायः परमन्यदस्ति यस्तद्वेदसवेद सर्वगं सर्वादिशो बलिमस्मै हरन्ति सर्वमस्मीत्युपासीद तद्व्रतं तद्व्रतम् अध्यायं तु खण्डं ट्वेन्टि टु विनर्दिसाम्नो वृणे पशव्यमित्यग्नेरुद्गीतो निरुक्तः प्रजापदेर्निरुक्तः सोमस्य मृदुश्लक्ष्णं वायोश्लक्ष्णं बलवद्विन्द्रस्य क्रौञ्चं बृहस्पदेरपध्वान्दं वरुणस्य तान् सर्वा नेवो सेवेद वारुणन्त्वेव वर्जयेत् अमृतत्वं देवेभ्य आगायानीत्यागायेत्स्वदां पितृभ्य आशां मनुष्येभ्यस्तृणोदगं पशुभ्यः स्वर्गल्लोकयजमानायान्नमात्मन आगायानीत्येदानि मनसाध्यायह्नप्रमत्तस्तुवीद सर्वेश्वरा इन्द्रस्यात्मानः सर्व ऊष्माणः प्रजापदेरात्मानः सर्वे स्पर्श मृत्योरात्मानस्तै यदि स्वरेषु वा प्रपन्नो भुवं सत्त्वा प्रतिवक्ष्यतीत्येनं ब्रूयाद अध यद्येन मूष्मसु पालभेद शरणं प्रपन्नो भुवं सत्वा प्रतिप्रेक्ष्यतीत्येनं ब्रूयादध यद्येन शरणं प्रपन्नो भुवं सत्वा प्रदिधक्ष्यतीत्येनं सर्वेश्वराकोशवन्दो बलवन्दो वक्तव्या बलन् दधानीदि सर्व ऊष्माणोऽग्रस्ता अनिरस्ताभिवृत्ता वक्तव्या प्रजापदेरात्मानं परिदधानीदि सर्वे स्पर्शालेशेनानभिनिहितावक्तव्या मृत्योरात्मानं परिहराणीदिति अध्यायं तु खण्डम् ट्वेण्टि त्रि त्रयो धर्मस्कन्धायज्ञोऽध्ययनन्दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासीतृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसाधयन् सर्व ये दे पुण्यलोका भवन्ति ब्रह्मसगृंस्थो मृतत्वमेधि प्रजापदिर्लोकानभ्यदपत्तेभ्योऽभितप्तेभ्यस्त्रयी विद्या सम्प्रास्रवत्तामभ्यतपत्तस्य अभितप्ताया एतान्यक्षराणि सम्प्रास्रवन्तभोर्भुवस्वरिधि तान्यभ्यदःपत्तेभ्योभितप्तेभ्य ओङ्कारः सम्प्रास्रवत्तद्यधा शङ्घुना सर्वाणि पर्णानि सन्तृण्णान्येवोङ्कारेण सर्वाक् सन्तृण्णोङ्कारेदगुं सर्वमोङ्कार एवेदगुं सर्वम् अध्यायं तु खण्डं 24 ब्रह्मवादिनो वदन्ति यद्वसूनां प्रादर्सवनगुं रुद्राणां माध्यन्दिनगुम् सवनमादित्यानां च विश्वेशांच देवानां तृतीयशवनं क्व तर्हि यजमानस्य लोकयितिशयस्तन्न विद्यात् कथं कुर्याददविद्वान् कुर्याद पुरा प्रादरनुवाक्स्योपाकरणाज्जघनेन गार्कपत्य सोदङ्मुख उपविश्य स वासवगं सा माभिगायति पश्ये मत्ववयगं रा रजुहोदिनमोऽग्नये पृथिवीक्षिते लोगक्षिदे लोगं मे यजमानाय विन्दै शवै यजमानस्य लोक एतास्मि अत्र यजमानः परस्तादायुष स्वाहाप जहि परिहमित्युक्त्वे तिष्ठदि तस्मै वसवः प्रातः सवनघुं सम्प्रयच्छन्ति पुरा माभ्यन्दिनस्य सवनस्योपाकरणाजनेनाग्निधृहस्योदङ्मुख उपविश्य सरौद्रगुं सा माभिगायति लोकद्वारमपावार्णोपश्ये मत्वा वयं वैरां आज्या इति अध जुहोदि नमो वायवेन्द ऋक्षिते लोकक्षिदे लोकं मे यजमानाय विन्दैष वै यजमानस्य लोकयेदास्मि अत्र यजमानः परस्तादायुष स्वाहापजहि वरिकमित्युक्तो तिष्ठदि तस्मैरुद्रा माध्यं दिनघुं सवनघुं सम्प्रयच्छन्ती पुरा तृदीयसवनस्योपकरणाज्जघनेनाशवनीयस्य दङ्मुख उपविश्य स सा आदित्यगं सा सामाभिगायति लोकद्वरमभावा पश्ये मत्ववयगं स्वारा हुआयो आदित्यमदवैश्वदेवल्लो कद्वरमभवार्नो पश्येमत्ववयगुंसाम्ना आं आयो आ अदजुहोदिनमादित्येभ्यविश्वेभ्यश्च देवेभ्यो दिविक्षिभ्यो लोगक्षिभ्यो लोगं मे यजमानाय विन्दद एष वै यजमानस्य लोग ये, ये दास्म्यत्र यजमानः तस्मा आदित्याश्च विश्वे च देवास्तृतीयं सवनगं सम्प्रयच्छन्त्येष हवैयज्ञस्य मात्रां वेदय एवं वेदय इति छान्तोग्योपनिषदः द्वितीयोऽध्यायः ओ